रामचन्द्राय जनकरा च या मनोहराय मामकाभिष्टराय महितमं कलं रामचन्द्राय जनकरा च या मनोहराय मामकाभिष्टराय महितमं कलं कौसलेयाय मन्दहासभूषणाय वासवादिविनुटसर्वदाय नित्यमं कयम् कौसलेयाय मन्दकासभूषणाय वासवादि विमुत सर्वदाय निजमङ्गलयं विमलरूपाय विविधवे राधवेजाय सुमुखचित्तकामिताय निरतमङ्गल्यं विमलरूपाय विविधवे राधवेजाय सुमुखचित्तकामिताय रामदास मुरुन गृहय तामल शनिवासाय स्वामि भद्रगिरिवराय सर्वमं कलं रामदास मुरुनगृय तामल शनिवासाय स्वामि भद्रगिरिवराय सर्वमं कलं रामचन्द्राय जनकरा जा मनोहराय मामकाभिष्टदाय मलिलमं कलं Mamaka Agishtataya Mahitaman Kailam, Mahitaman Kailam, Mahitaman Kailam.